अथ एकादशाधिकद्विशततमोऽध्यायः नारदवाच जित्वा तु पृथिवीं दैत्यौ निःसपत्नौ गतव्यथौ कृत्वा त्रैलोक्यमव्यग्रं कृतकृत्यौ बभूवतुः देवगन्धर्वयक्षाणाम् नागपार्थिव रक्षसाम् आदाय सर्वरत्नानि परां तुष्टिमुपागतौ यदा न प्रतिषेद्धारस्तयोः केचन निरुद्योगौ तदा भूत्वा विजह्राते मराविवा स्त्रीभिर्मल्यैश्च गन्धैश्च भक्ष्यभोज्यैः सुष्कलैः पानैश्च विविधैर्हृद्यैः परां प्रीतिमवापतुः अन्तःपुरवनोद्याने पर्वतेषु वनेषु च यथेप्सितेषु देशेषु विजहराते मराविवा। ततः कदाचित् विन्ध्यस्य प्रस्थे समशिलातले पुष्पिताग्रेषु शालेषु विहारमभिजग्मतुः दिव्येषु सर्वकामेषु समानीतेषु तावुभौ वरासनेषु संहृष्टौ सह स्त्रीभिर्निषीदतुः ततो वादित्रनृत्याभ्यामुपातिष्ठन्ततौ स्त्रियः गीतैश्च स्तुतिसंयुक्तैः प्रीत्या समुपजग्मिरे ततस्तिलोत्तमा तत्र वने पुष्पाणि चिन्वती वेषं साक्षिप्तमाधाय रक्तेनैकेन वाससा नदीतीरेषु जातान् सा कर्णिकारान् प्रचिन्वती शनैर्जगामतं देशं यत्रास्तां तौ महासुरौ